शं नो निंवरुणः शं नो भवत्वर्यमा शं इन्द्रो बृहस्पतिः शं नो नमो ब्रह्मणे नमस्ते त्वमे वा त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि सत्यम् वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् तद्वक्तारम अवतु, अवतु, अवतु वक्तारम् ओम् शाम् विशाम् विश्रान्तिः शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शं नो विष्णुरुलक्रमः नमो ब्रह्मणे नमस्ते वाय त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मामावीद तद्वक्तारमावीद आभीयन्माम् आवीहिद्वक्तारम् ओम् शान्तिः शान्तिः शान्तिः सहनाभवतु सहनो भुनक्तो सह वीर्यङ्करवावहै तेजस्विरावधीतमस्तुमाविद्विषावहैः ओम् शान्तिः नमो वाचे याचोदिता याचानुदिता वाचे नमो नमो वाचे नमो वाचस् नम ऋषिभ्यो मन्त्रगद्भ्यो मन्त्रपदेभ्यो मामा ऋषजो मन्त्रकृतो मन्त्रपदयः पराधुर्माहर्षेन् मन्त्रकृतो मन्त्रपतीं परा दां ईश्वदेवीं वाचमुद्यासदुं शिवामदस्ताञ्जुष्टान् देवेभ्यः शर्म मेद्यौ शर्म स्वमिदम् जगत् शर्म चन्द्रश्च सौर्यश्च शर्म भूतम् वदिष्ये भवनम् वदिष्ये तेजोवदिष्ये यशो वदिष्ये तपोवदिष्ये ब्रह्म वदिष्ये सत्यम् वदिष्ये तस्माहमिदमुपस्तरणमुपस्तृण उपस्तरणम् मे प्रजाते पशूनाम् भो यादुपस्तरणमहम् प्रजाते पशूनाम् भो यासम् प्राणापानो मृत्यौर्मापातम् प्राणापानो मामाहाशिष्टम् मधुमनिष्ये मधुजनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधु देवेभ्यो वाचमुद्यासकम् शुश्रूषेण्याम् दुष्ये ह्यस्तम् मा देवा अवन्तु शोभाजी पितरोनु मदन्तु ॐ शान्तिः शान्तिः शान्तिः ॐोरावृणेमहे शान्ति दातुम् यज्ञाय दातुम् यज्ञपतगे दैवी स्वस्तिरस्तुनः स्वस्तिर्मानुषेभ्यः ऊर्ध्वन्यदातु भेषजम् शं नो अस्तु विपदे शम् चतुष्पदे ॐ शान्तिः शान्तिः शान्तिः